श्री श्रीगणेशाय नमः श्रीकृष्णरक्षास्तोत्रम् ध्यानम् ध्यायेद्गोमण्डलस्थं सुललितमुरलीगानलोलं सुमालम् सौगन्धाद्यैः सुलिप्तम् हलधरसहितम् रुक्मिणीशं सतीशं। राधारासप्रसक्तम् निखिलजनहितम् सर्वलोकप्रकर्षम् मन्दस्मेरम् ह्यनाथम् प्रणतसुगतिदम् देवकीकृष्णरूपम् इति ध्यानम् लीलावैवासुदेवस्य नान्तमेति पवित्रकम् तत्रैकाक्षरमात्रम् तु महापापविनाशनम् ध्यात्वा नीलाम्बरश्यामम् कृष्णम् कमललोचनम् रुक्मिणीबलरामाभ्याम् सहितम् गोपतिम् हरिम् शङ्खचक्रगदा पद्मधरम् धर्मसंस्थापनार्थाय प्राप्तावतारवात्मना कृष्णरक्षाम्बठे दिव्यम् सर्वार्थदम् दिने दिने यस्य मात्रेण जीवन्मुक्तो भवेत् सुधीः शिरोमेकेशवः पातु भालम् गोपालनन्दनः वासुदेवोदृशौ पातु देवकीर्तनयः श्रुती नासाम् पातु च कंसारिम् मुखम् पाण्डववत्सलः रसनाम् पातु राशेषो कण्ठम् हाटकाम्बरः ग्रीवान्तु तुलसीहारी स्कन्धौ शार्ङी च रक्षतु बाहू पातु महाबाहुश्चक्रीहस्तौ हस्तौ चरक्षतु। हृदयम् पातु गोपीशो मध्यम् च पार्थसारथिः नाभिम् वै पद्मनाभश्च कटीप्राणप्रियोऽवतु सखिनी पातु गौ जानुनीनवनीताप्तो जङ्घे च शिशुपालः पादौ भीष्मस्तु तश्चैव मारतातश्च सन्मनः इन्द्रियाणि हि शीकेशः पातु कृष्णोऽखिलम् वपुः एताम् कृष्णबलोपेताम् रक्षाञ्जः सुकृति पठेत् सचिरायुः सुखी पुत्री विजयी विनयीभवेत् भूतप्रेतपिशाचाद्यैर्ब्रह्म राक्षसमान्त्रिकैः का न काचिदपि पीडा स्यात् सर्वोपद्रवशक्तिभिः कृष्णेति नरो न लिप्यते पापैर्भुक्तिम् मुक्तिम् च यः स्मरेत् सर्वदा तद्वैकरस्थाः सर्वसिद्धयः वज्रपञ्जरनामेदम् यो कृष्णकवचम् स्मरेत् अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् शास्त्रिणे प्रेरणा लब्धा हृत्स्थेन भगवता यथा कृष्णमूर्तिः स वै कर्ष्णात् सर्वदुःखानाम् सुभक्तानाम् हिताय वै सर्वलोकाकर्षणाच्च कृष्णमेवाश्रयाम्यहम् बालौ षड्गुणसम्पन्नौ सुकुमारौ महाबलौ पुण्डरेकविशालाक्षौ पीताम्बरसुशोभितौ नवनीतविलिप्ताङ्गौ विष्णुशेषावतारिणौ पुत्रौ च वसुदेवस्य कृष्णरामौ च भ्रातरौ शरण्यौ सर्वसत्त्वानाम् श्रेष्ठौ सर्वमनस्विनाम् रक्षः कुलनिहन्तारौत्रायेतान्नो यदूत्तमौ कृष्णो देवकिनन्दनो यदुपरिर्गोलोकराजो हरिः राधाराधितप्रेमपूर्णहृदयो त्रैलोक्यनाथो विभुः रुक्मिण्यादिमनोरमायुतयुतो गङ्गाधराप्तश्च ब्रह्मज्ञानसुधाम्बुधिम् निजसुखम् धीयान्नताम् रक्षतु कृष्णाय प्रेमरूपाय यदुचन्द्राय धीमते गीताचार्याय दिव्याय रुक्मिणीपतये नमः श्रीकृष्णकृष्णमुरलीधर कृष्णकृष्ण श्रीकृष्णकृष्ण यदुवंशज कृष्णकृष्ण श्रीकृष्णकृष्णभवभञ्जन कृष्णकृष्ण श्रीकृष्णकृष्ण शरणम् भव कृष्णकृष्ण श्रीवासुदेवचरणौ मनसा स्मरामि श्रीवासुदेवचरणौ वचसा गृहामि श्रीवासुदेवचरणौ शिरसा नमामि श्रीवासुदेव चरणौ शरणम् गतोऽस्मि माता कृष्णो मत्पिता वासुदेवस्वामी कृष्णो जानेनैव जानेन जाने लोकाभिकर्षम् रणनीतिमूलम् पद्माक्षशोभम् यदुवंशनाथम् दीनार्दबन्धुम् करुणाकरन्तम् श्रीवासुदेवम् शरणं प्रपद्ये पूजन्तम् कृष्णकृष्णेति मोहकम् माधवाक्षरम् भागवतद्रुममारुह्य वन्दे श्रीव्यासकोकिलम् कष्टानामपकर्षन्तमिष्टार्थानाम् प्रदायकम् सर्वाकर्षककृष्णन्तम् भोजो भोजो नमाम्यहम् नाशकम् भवपाशानाम् दायकम् सुगदम् पदाम् स्तम्भनम् यमदूतानाम् कृष्णकृष्णेति गायनम् कृष्णो रक्षतु केशवो मुररिपुः कृष्णम् भजे श्यामलम् कृष्णेनागत सर्वकष्टहरणम् कृष्णाय तुभ्यम् नमः कृष्णान्नास्ति परागतिर्नरहरे कृष्णस्य भृत्योऽस्म्यहम् कृष्णेन्नृत्यतु मानसम् प्रतिदिनम् हे कृष्ण हे माधव कृष्णो कर्ष्यति कष्टानि पापान्यपाकरोति वै कलौ तारकमन्त्रम् तु कृष्ण इत्यभिधीयत् कृष्णकृष्णेति गोविन्दम् संस्मरेन्मधुसूदनम् सहस्रनामतुल्यम् स्यात् कृष्णनामैव केवलम् ओम् तत्पुरुषाय विद्महे वासुदेवाय धीमहि तन्नः कृष्णः प्रचोदयात् ओङ्गीताचार्याय विद्महे जगद्गुरुञ्च धीमहि तन्नो गोपः प्रचोदयात् ॐ गोलोकाधिपतिं वन्दे प्रेमरूपाय धीमहि राधाकृष्णः प्रचोदयात् ॐ असुरान्तकाय विद्महे रुद्रमित्राय धीमहि स्थितीश्वरः प्रचोदयात् ॐ देवकीर्तनयं वन्दे यशोदावत्सलं हरिम् गोकुलेशः प्रचोदयात् ॐ नारायणाय वित्महे सदाशिवाय धीमहि तन्नो ब्रह्मा प्रचोदयात् ॐ परमेश्वराय विद्महे परम् ब्रह्म च धीमहि कृष्णमूर्तिः प्रचोदयात् ओम् सद्गुरवे विद्महे राघवेश्वरम् च धीमहि तन्नः शङ्करः प्रचोदयात् इति श्रीसद्गुरुदयया श्रीकृष्णो मामहेश्वरप्रेरणया च दम्बिकृष्णमूर्तिशास्त्रिविरचितमिदम् श्रीकृष्णवृक्षास्तोत्रम् जगद्गुरुभ्यः समर्पितमस्तु हरे राम